वाग्हृदये हृदयंमयि अहममु अमृतं ब्रह्मणि प्राणेषितः प्राणो हृदये हृदयंमयि अहममु अमृतं ब्रह्मणि चक्षुरहृदये हृदयंमयि अहममु अमृतं ब्रह्मणि चन्द्रमा मनोहृदये हृदयंमयि अहममु अमृतं इशो मे श्रोत्रेष्ठताः श्रोत्रगं हृदये हृदयंमये अहमृते ए अमृतं ब्रह्मणि रेतो हृदये हृदयंमयि अहममुते ए अमृतं शरीरे श्रिताः शरीरगुं हृदये हृदयंमयि अहममुते ए अमृतं ब्रह्मणि पूर्दिवनस्पतयो मे लोमशिक्षिताः हृदये हृदयं मयि अहममुते ए अमृतं ब्रह्मणि इन्द्रो मेबलये श्रितः वरदुं हृदये हृदयंमयि अहममुते ए अमृतं ब्रह्मणि पद्यन्यो मे मोर्धे श्रितः मोर्धहृदये हृदयंमयि अहममुते ए अमृतं ब्रह्मणि ईशो महे श्रोत्रे ईशानो मे मन्यो श्रितः मन्योरथदये हृदयम्मयि अहममु ते ए अमृतं ब्रह्मणि आत्मा आत्मनि श्रितः आत्मा हृदये हृदयं मयि अहममुते अमुतम् ब्रह्मणि पुनर्म आत्मा पुनरायुरागाधि पुनः प्राणः पुनराकुतमागाधि वैश्वानरो रश्मिभिरुवावृधानः अन्तस्तिष्ठत्वमिदस्य गोपाः आराधिरो मनुष्ये त्वम् सिद्धैर्देवासुरादिभिः आराध्या विभक्त्या त्वानुगृहाणमहेश्वरा आयुराशा अस्ते सुप्रजास्त्वमाशा अस्ते सुजातवनस्यामासा अस्ति उत्तरान्देव इद्यामासा अस्ति भूयोहविष्करणमासा अस्ति दिव्यन्धामासा अस्ति विश्वं प्रियमासा अस्ति यधनेन अविशा अस्ति तदस्यात्तदृस्मै देवारः सन्ताम् अस्य श्रीरुद्राध्यायप्रश्रमहामन्त्रस्य अघोरषिः अनुप्रच्छन्दः शङ्कर्षडमूर्तिस्वरूपो योसावादित्यः परमपुरुषः स एषरुद्रो देवता नमः शिवायेति बीजं शिवतरायेति शक्तिः महादेवायेति केनकम् शेषाम्बु सदा शिवप्रदा ससिद्ध्यर्थे यपे विनियोगः ओम् अग्नहोत्रात्मने अङ्गुष्ठाभ्यां नमः दविशपूर्णमासात्मने तज्जनेऽ्यां नमः चातुर्मास्यात्मने मध्यमाप्यां नमः निरूढवचबन्धात्मने अनामिताभ्यां नमः ज्योतिष्ठोमात्मने कनिष्ठिकाभ्यां नमः सर्वक्रत्वात्मने करतलकरपृष्ठाभ्यां नमः अग्निहोत्रात्मने हृदयाय नमः जनिषपूर्णमासात्मने शिरसे स्वाहा चातुर्मास्यात्मने शिखायै वषट् निरुढवचुबन्धात्मने कवचाय हुं ज्योतिष्ठोमात्मने नेत्रयाय वोषट् अस्त्राय भटि भू भुवस्वरो विधि दिग्बन्धः आपातानभस्थलान्तभुवनब्रह्माण्डमाविस्फुरत् ज्योतिः स्फाटिकलिङ्गमौलिविरसत्पूर्णेन्द्रुवान्तावृतैः अस्तोकाकृतमेकमेषमनिशम् कृत्वानुवाकाञ्जपन् ध्यायेदीक्षये द्रुतपदम् विप्रोभिजिञ्चेच्छिवम् ब्रह्माण्डव्याप्तदेहाभजित हिमरुचा भासमानाभजङ्गैः कण्ठे काराः कवर्दाकरितशिकलाश्चन्दकोदण्डहस्ताः चक्षा रुद्राक्षपालाः प्रणतभयराशाम्भवामूर्तिभेदाः रुद्रा श्रीरुद्रसूक्तप्रकटितविभवानप्रयच्छन्तु सौख्यम् ओम् ॐ नमो भगवते रुद्र ओम् गणानान्त्वा गणपतिर्मवामहे कविं कवीनामुपमश्रमस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन्नोतिभिश्चेदसादनम् श्रीमहागणपतये नमः शञ्च भेमयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमरसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे दशश्च मे भगश्च मे त्रिविदञ्च मे चिन्ता च मे धत्ता देवातिश्च मे दीर्घादित्वञ्च मेन मित्रञ्च मे भयञ्चमे सुगञ्च मे शयनञ्चमे सोषाच मे सुजिनञ्चमे ॐ शान्तिः शान्तिः शान्तिः ॐ नमो भगवते रुद्राय नमस्ते रुद्रभन्यव उतोतैषभे नमः नमस्तेऽस्त्वधन्वने बाहुभ्यामुतथे नमः यातयिषु शिवतमा शिवं धनुः शिवा शरव्या यातवतया नो यातिरुद्रशिवातनुरघोरापापकाशिनी तया नस्तनुभाषन्तमहाशन्ताभिचाकशीभि यामिषङ्गिरिशन्थाहस्तेभिर्ष्यस्तवे या शिवाङ्गिरिद्रताङ्कुरु माहि वंसे पुरुषं जगति शिवे नमति सात्वाभिच्छामदापसि यथा नः सर्वामिजगदजक्ष्मं सुमना असत् अध्यवोचरधिवक्ता प्रथमो दैव्यो भिषक् अहीरुंश्च सर्वान्यम्भयन्सर्व अस्थयातु धान्यः असौ यस्ताम्रो अरुण उत बभृत्सु मङ्गलः एते मागुं रुद्राभितो दिक्षुश्रिताः सहस्रसो वैषागुम् फेर इमहे असौ यो भसत्पथि निरग्रीभो विरोहिदः उतैरं गोपा अग्रिसन्नद्रिशन्नुदायः उतैरं विश्वाभूतानि सघृष्टो मृदयाचिनः नमो अस्तु निरग्रीवायुदाच्छात्राय अथो ये अस्य सत्त्वानोहन्तेभ्यो करन्नमः प्रमञ्चधन्वधस्त्वमुभयोरार्त्रियोद्यां याश्च देहस्तगिषः परात भगवोप अवतत्यध नस्वगुंसहस्राक्षशतेषु धे निहीर्सल्याधां मुखः शिवो न सुमनो भव विद्यन्तनुः कपर्दिनामिषन्ध्यो बाणवागुम् उत अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हेतर्मे धृष्टमाहस्ते बभूव चे धनुः तयास्मान् विश्वतस्वयक्ष्मयापरिभुजा नमस्ते अस्वायुधाया न तजाय धृष्णवे उभाभ्यामतते नमो बाहुभ्यान्तधन्वने परिते धन्वनो हेतिरस्मान्वृणत्तु विश्वतः अथो य एषो धेष्टे अस्मन्निधेशितं नमस्तेऽस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्थकाय त्रिकाग्निकाराय काराग्निरुद्राय देवकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशाञ्च पथ येन ये मानवो वृक्षेभ्य हरिकेशेभ्यः पशूनां पतयेन मानमसस्मिञ्जराय त्रिषीमते पथीनां पतयेन मानमो बभृशाय विव्याधिनेर्नानां पथ येन मौन मोहरिकेशायोपवीचिने पुष्टानां पथ येन मौनमो भवस्य हेत्यये जगतां पथ येन मौनमो रुद्राय तथाभिनेक्षेत्राणां पतयेन मौनमसूताय हन्ताय वनानां पत येन मौनमोरोहिताय स्थपतै वृक्षाणां पत येन मौनमो मन्त्रिणे वा कक्षाणां पतयेन मौनमो भुवन्तये वायुवस्मितायौषधीनां पतयेन मौनमः उच्चयेर्घोषाय क्रन्दय ते पत्तीनां पतयेन मौनमःकृत्नभेदाय धावते सत्त्वधां पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनां पतयेन मौनमः ककुभायिनिषङ्गिनेस्तेनानाम् पतयेन मोनमो निषण्डिन इरुधिमथे तस्कराणां पतयेन मोनमो वञ्चते परिवञ्च्यते स्थायूनां पतयेन मोनमो निचेनवे परिचरायारण्यानां पतयेन मौनमसृकाव्यभ्य दीर्घापुंसद्भ्योमुष्णताम् पतयेन मोनमोऽसिमद्भ्य नक्तञ्चलभ्यः प्रकृतानां पतयेन मौनम उष्णीतिने गिरिचराय कुलुञ्च दाम्पतयेन मानवैषुमद्भ्यो दन्भाविभ्यश्च वो न मानव आदन्धानेभ्यः प्रतिदधानेभ्यश्च वोन मानव आदिच्छद्भ्यो विसृजद्भ्यश्च वोनभौनमास्यद्भ्य पीठेभ्यश्च वनभोनवशिनेभ्ययानेभ्यश्च वोन मानवः सुपद्भ्य व्यागृद्भ्यश्च वो न भोनमास्येष्ठद्भ्य धावद्भ्यश्च वोन मानवः सभाभ्यः सभापतिभ्यश्च भो नमो नमः अश्वेभ्यो अश्वपतिभ्यश्च भौ नमः न आव्यादिनेभ्यो विविध्यन्तेभ्यश्च भौ न भौन उगणाभ्यस्तृतिम् अचिभ्यश्च वो नमो नमो वृक्षेभ्यो वृक्षपतिभ्यश्च भो नमो नमः व्रातेयेभ्यो व्रातपतिभ्यश्च भो न भो नमो गणेभ्यो गणपतिभ्यश्च भो नमौ नमः विरूपेभ्यो विश्वरूपेभ्यश्च भौ नमो नमो भवद्भ्यः क्षुल्लकेभ्यश्च भौ नमौ नमो ऋथिभ्यो रथेभ्यश्च भौ नमौ नमः रथेभ्यो रथपतिभ्यश्च भौ न भौ नमः सेनाभ्य सेनाभ्यश्च भौ नमौ नमः क्षत्रिभ्यः भो न भौ नमः पुिष्टेभ्यो निषादेभ्यश्च भो न भो नमःभ्यो जन्द्वकृभ्यश्च भो न भो नमो मृगजभ्यस्वनिभ्यश्च भो न भो नमःभ्यश्वपतिभ्यश्च भो नमः नमो भवाय च नमः शर्वाय च वसुपतये च न च नमाःकफर्दिने च युक्तदेशाय च नमसहस्राक्षाय च शतधन्वने च नमो देधिषाय च युपिभिष्टाय च नमो मेधुष्टमाय चे सुमते च नमो अह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो च नमो अग्रियाय च प्रथमाय च नम आशवे च गिराय च च क्षीभ्याय च नम कूर्म्याय चावस्वन्याय च नमः स्रोतस्याय च द्वित्याय च नमोऽध्यष्टाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगर्भाय च नमोजघन्याय च बुध्निय च नमः च प्रतिसर्याय च नमोयाम्याय च क्षेम्याय नमो उर्वर्याय च खर्याय च न भाश्रौक्याय चावसान्याय च नभो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नम आशुसेनाय च सुरथाय च नमः शुराय चाबभिन्दते च नमो वर्मिणे च वोचिने च नमो भिन्दिने च भजिने च नमः श्रुताय नमो दुन्दुभ्याय चाहन्याय च नमो धृष्णवे च प्रभृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषुधिमते च नमस्तेक्ष्णेशवे चायुधिने च नमस्वायुधाय च सुधन्वने च नमाश्रुत्याय च पथ्याय च नमः च नेत्याय च न माश्रूत्याय च तरस्याय च नमो नाद्याय च वैशङ्काय च नमः कोप्याय चावत्याय च नमो वर्ष्याय च वर्ष्याय च नमो महेद्याय च विद्युत्याय च नमीन्द्र्याय च तुय च रेश्मियाय च नमो वास्तव्याय च वास्तुवाय च ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय च रुणाय च नम शङ्गाय च वशुपतये च नम उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे चवनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शंभवे च मयोभवे च नमः च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेत्याय च कूर्याय च नमः भार्याय च भार्याय च नमः प्रकरणाय चोत्तरणाय च नम आचार्याय च आलाध्याय च न माश्रष्टाय च फेन्याय च नमसिकृत्याय च प्रभाष्याय च नम हिरण्याय च प्रपथ्याय च नम किलं शिलाय च क्षयणाय च नमः कफर्मि च पुनस्तये च न मोघोष्ठ्याय च गृह्याय च न च गेह्याय च नमः काव्याय च ग्वरेष्ठाय च नमोऽख्रदय्याय च निभेष्ट्याय च नमः पादंसौर्याय च रजस्याय च न वैशिष्ट्याय च नमो लोप्याय चोरप्याय च नम नमो वस्त्यधिकेभ्यो देवानानुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्तेभ्यो नम आनिर्हतेभ्यो नम आनिवत्केभ्यः जाभे <laughs> अन्धसत्पथे दरिद्रन्निर्लोपिता येषां पुरुषाणामेषां पशूनां मा भेर्मारोमो येषां किञ्चदामति यातेरुद्र शिवातनो शिवा, शिवा विश्वाह शिवारुद्रस्य भेषगीतया नो मृ जीवसे हे हिमादुं रुद्राय तमसे कपद्दिने क्षयद्वीराय प्रभराम हे मतिम् यथा नह्यमसद्विपथे चतुष्पथे विश्वम् कृष्णं ग्रामे अस्मिन्ननातुरम् मृणानुद्रमतधोमयस्कृधि क्षयद्वीराय नमसा विधेमते यक्षङ्ख्ययोश्च मनुराय ये तदस्याभतवरुद्रप्रणीतौ मानो महान्तमुतमानो अर्भकं मानौक्षन्तमुतमानौ उक्षितं मानो धेतरमोतमातरं प्रियामानस्तनुगोरुद्ररीष मानस्तुकेतनघे आराध्ये गोघ्रमुतपूर्वषघ्ने क्षयद्भिराय सोम्रभस्मे ते अस्तु च न अधि च देवर्हाभिः श्रुतं दत्तसगन्धुवानं मृगन्पहत्वमुग्रम् मृगाजनेत्रेरुभ्यस्तवान् अन्यन्ते अस्मन्निव बन्तु सेनाः परिणरुद्रस्य हेतुर्वृणत्व परि त्वेषस्य दुर्वचरघायोः अवस्थिरामगवत्यस्तरुष्व मेभ्यस्तवकार्यतनयाय मृळय मेभ्यष्ट वा शिवतम शिवो न सुमनाभवा परमे वृक्ष आविधं निधाय कृच्छ्यं वसाध आचरपि नाकम्ब्यभ्रदाभिः वितिरिदमिलोषित नमस्तेऽस्तु भगवः यास्ते सहस्रगुंहेतयोन्यमस्मन्निवपन्थो ताः सहस्रादिस्रसा बहुवोस्तव हेतयः सामिषा नो भगवपरातिधामुखाकृति सहस्रादिदस्रसो ये रुद्रा अधिभूम्यां श्रीरागुधा श्रयो जने वा धन्वा नितन्मसि अस्मिन्माहत्यार्नवेऽन्तरिक्षे भवाधि निरग्रीवास्यचिकण्ठा अशर्वा अधः क्षमाचराः नीलग्रीवास्यचिकण्ठा दिवगुं रुद्रा उपस्थिताः ये वृक्षेण सस्मिञ्जर्हाेन त्रिभावलोगिताः ये भूतानामधिपतयो विशिखासर्कभर्णिनः ये अन्येषु विविध्यन्ते पात्रेषु पिबतो जनानि ये पथाम्बिरक्षय ऐलभृदा विधः ये तीर्थानि प्रचलन्ति शिकावन्तो निषङ्गिनः ये एतावन्तश्च भूयाभुंसश्च दिशोरुजावितश्चिरे तेषा तुश्रयो जने वा धन्वानि कर्मसि नमो रुद्रेभ्यो ये पृथिव्यान्येऽन्तरिक्षेये दिवि तेषामह्नं वातो वर्षमिषभत्तेभ्यो दिश प्राचीर्दश दक्षिणा दिशप्रतीचेर्दशोदी चेन्दर्दशो त्वास्तेभ्यो न मास्ते नो वृडयन्थो विष्णोश्च नो त्वेऽस्ति तं भोजं वे दधामि त्यं मदङ्गजामहे सुगन्धिम् पुत्र्यवर्धनम् क्रूवानुकपिभाबन्धनान् मृत्यो मुक्षीय मामृता यो रुद्रो अग्नौ यो अयवोषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमोऽस्तु तमुषु हि यस्मिषु सुधन्वाजो विश्वस्य क्षयचिभेशजस्य इक्ष्वाहा महेसौ मनसाय रुद्रम् नमोऽमसुरन्धुवस्य अयं मे हस्तो भगवानयं मे भगवत्तरः अयं मे शुभेषधोऽयं शिवाभिमरिषिणः एते सहस्रमलितं पाशा मृत्यो मत्या यन्तवे तानिज्ञस्य मायैः सार्वानवयजामहे मृत्युभे स्वाहा मृत्युभे स्वाहा ॐ नमो भगवते रुद्राय विष्णवे मृत्यमे भाहि प्राणानां ग्रन्थिरसि रद्रोमाभि शान्तकः तेनान्येन अप्यायस्व ॐ शान्तिश्शान्तिश्शान्तिः ॐ